मार्कण्डेयपुराणम् अध्यायम् एय्टी नयन् देवीमाहात्म्यम् अध्यायं, देवी अध्यायं नयन् राजोवाच विचित्रमिदमाख्यातं भगवन् भवदा मम देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितं भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपा चकारशुंभो यद निशुंभस्ाधिपन हृषिवाच चकारकोपमीजे निपा शुंभासुरो निशुंभस्वन्न चाह हनमसैन्यम विलोक्यामर्ष मुद्वन हन। अभ्य धावशुभोध मुख्य सुरसेनया तग्रतस्तः पृष्ठे पार्शोच महासुरा संुटा क्रुद्धा हंदम दीपयु आजगामीशुंभिबृत निगन्ध चंडिका कोपा कृताव युद्धं तु तदो ततो युद्धमदिवासि देव्या शुम्भनिशुम्भयोः शरवर्षमदीवोऽग्रं मेखयोरिव वर्षतोः चिच्छेदास्ताञ्चरां स्ताभ्यां चण्डिका स्वशरोत्करैः ताडयामास शस्त्रौ कैरसुरेश्वरौ निशुम्भो निषिदं खड्गं चर्मचादाय सुप्रभं अताडयन् मूर्धनि सिंहं देव्या वाहनमुत्तमं निशुम्भो निषिदं खड्गं चर्मचादाय सुप्रभम् अताडयन् मूर्ध्नि सिंहं देव्या वाहनमुत्तमम् चिह्ने चर्मणि खड्गे च चिक्षेप सोसुरह तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखा गदां कोपाध् मादो निशुम्भोध दा, शूलं दानवः आयादं मुष्टिपादेन देवी तच्चाप्य तच्चाप्यचूर्णयत् अधादाय गदाम् सोपि चिक्षेप चिक्षेपचण्डिकां प्रति सापि देव्या त्रिशूलेन भिन्ना भस्मत्वमागदा तदः परशुहस्तं तमायान्तदैत्यपुङ्गवम् आहत्य देवी बाणौखैरपादयद भूतले तस्मिन्निपतिदे भूमौ निशुम्भे भीमविक्रमे भ्रातर्यदीव संक्रुद्धप्रययौ हन्तुमम्बिकां शरथस्तधात्युच्चैर्गृहीतपरमायुधैः भुजैरष्टाभिरधुलैर्व्याप्याशेषं बभौ नभः समायान्दं समालोक्य देवी शङ्खमवादयद दे। ज्याशब्दं चापि धनुषस्त चकारादीव दुःसहं पूरयामास ककुभो निजखण्डास्वनेन च समस्तदैत्यसैन्यानां तेजोवधविधायिना तदसिंहो महानादाय स््याजितेभमहामदैः पूरयामास गगनं गां तथैव दिशो दश ततः समुत्पत्य गगनं क्ष्मामदाडयद कराभ्यां तन्निनादेन प्राक्स्व नास्तेतिरोहिताः अट्टाट्टहासमशिवं शिवदूदी चकारः तैः शब्दैरसुरास्ते सुशुम्भकोपं परं ययौ दुरात्मां स्तिष्ठतिष्ठे दिव्याजहाराम्भिका यदा तदा जयत्यभिहितं देवैराकाशसंस्थितैः शुम्भेनागत्य या चक्रिर्मुक्ता भीषणा आयान्ति वह्निकूडाभा सा निरस्ता महोल्कया सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरं निर्घातनिस्वनोऽघोरो जितवानवनीपदे शुम्भमुक्ताञ्छरान्देवि शुम्भस्तत्प्रहिताञ्चराञ्चिच्छेदस्वशरैरुघ्रैः शतशोधसहस्रशः तदसा चण्डिकाक्रुद्धा शूलेनाभिजघानं स तदाभिहदो भूमौ मूर्चिदो निपपातः तदो निशुम्भसम्प्राप्य चेतनामात्रकार्मुकः आजखानशरैर्देवीं कालीं केसरिणं तथा पुनश्च कृत्वा बाहूनामयुधं धनुजेश्वरः चक्रायुधेन दिधिजश्चादयामास चण्डिका तदो भगवदी क्रुद्धा दुर्गा दुर्गार्ति दुर्गार्तिनाशिनी चिच्छेद तानि चक्राणि स्वशरैः सायकांश्च तान् ततो निशुम्भो वेगेन गदामादाय चण्डिकाम् अभ्यधावद वै हन्तुं दैत्यसेनासमावृतः तस्या पततये वाशु गदां चिच्छेदचण्डिका खड्गेन शिदद्धारेण स समाददे शूलहस्तं समायान्तं निशुम्भमरार्दनं हृदिविव्याधशूलेन वेगाविद्धेन चण्डिका भिन्नस्य तस्य शूलेन हृदयान्निःसृतो परः महाबलो महावीर्यिष्टेधि पुरुषोऽवदन् तस्य निष्कामदो देवी प्रहस्यस्वनवत्तदः शिरच्छिच्छेदखड्गेन तदोसा वपदद्भुवि तदसिंहश्च खादोऽग्रं दंष्ट्राक्षुण्णशिरोधरान् असुरां स्तां तथा कारी शिवदूदी तथापरान् कौमारीशक्तिनिर्भिन्नाः के जिन्नेशुर्मः ब्रह्माणि मन्त्रभूतेन तोयेनान्ये निराकृताः माहेश्वरी त्रिशूलेन भिन्नाः पेदुस्तथा परे वाराहीतुण्डकादेन केचिच्चूर्णो कृता भुवि खण्डं खण्डं च चक्रेन वैष्णव्या धानवा कृताः वज्रेण चैन्द्रिहस्ताग्रविमुक्तेन तथा परे केचिद्विने सुरासुरा केचिन्नष्टा महाकवात् भक्षिताश्चापरे काली शिवदूदी मृगाधिपैः यदि श्रीमार्कण्डेयमहापुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये निशुम्भवधो नाम एकोननवतितमोऽध्यायः ओ